ओम् इमाञ्जनताम् सङ्गृह्णानि द्वादशारत्नेन जना भवते द्वादशमासाः संवत्सरः संवत्सरमेवावरुन्धे मौञ्जे भवते पूर्वैमुञ्जाः ऊर्जमेवावरुन्धे चित्रानक्षत्रम् भवते चित्रम् वा पुण्यनामदे वैजनमध्यमश्चे पुण्यामेपदेन कीर्तिमभिजयते अपदादे ऋद्वयः समावहन्त्यासु ब्रह्मण्यायाः स्वर्गस्य लोकस्य समष्ट्यै केशश्मश्रुवपदे न कानि निकन्दतेपदे स्नादे अहलम्बाधपरिधत्ते रात्रिञ्जाग्रयम् दादरे स्वर्गस्य लोकस्य समष्ट्यै चतुष्टै यापो भवन्ति चतुश्चो वा अश्वप्राजावत्यः समध्यै साभ्यः समाहृता भवन्ति इक्ष्वा आवह अन्नम् वा आव अभ्यो जायते फिरेवाद्भ्यो अन्नम् जायते तदवरन्धे पादब्रह्मौ धनम् भजले एतदेव दद्धधाने दशरामो भवति दि, लक्ष्मेवक् प्रतिष्ठति दि, भजलो लग्नो भवतः भजलेवास्मिन्दुलिम् दधाति दि, उद्धरदिषदत्ताय सर्पिष्वान् भवति मे धत्वाय चत्वारगाप्राश्चम्पि दि, द्विषामेव ज्योतिरिजहोदि चत्वारि हिरण्यानि दि, ददाति द्विषामेव ज्योतिगिश्ववरुन्धे यदाज्ञमुच्छ्यते तस्मिन् दशदान्यनग्नि प्रजापतिर्वादोधनः वेदाज्यम् यदाज्ञे रसनान्ये प्रजापतिमेवले च समर्थयते गर्भमयी रसनाभवने मेध्यम गुजरामेध्यमुपगच्छति यदश्वः पवित्रम् वै दर्भाः यद्दर्भमयी रसनाभवने वैनम् ऊगमेनम् मेध्यमालभते हस्वश्रवालश्रमहिमोदक्रामले महत्विरविशत् तन्महत्विजा महत्वित्वम् यन्महत्विरक्राष्टन्ति महिमानमेवाश्वस्य वा आलभ्यसरे नमुदक्रामदे तत्सुवर्णगम् हिरण्यमभवत् यत्सुवर्णगो हिरण्यम् ददाति हेत एव तद्दधाति ओदने ददाति हेतो वा मोदनः हेतो हिरण्यम् हेदैवास्पन्द्रेतो न वे ब्रह्मणे देवेभ्यः प्रजापतये प्रतिप्रवोच्या स्वं मेभ्यम् बध्नाति आ देवदाभ्यो विष्ठरे पापीयान्भवने यः परिप्रोच्य कदेवदाभ्याविष्ठदे वशीयान्भवने यदाह ब्रह्मन्न स्वं मेध्यम् भवान्स्यामि देवेभ्यः प्रजापतये तेन भवे ब्रह्मा ब्रह्मण एव देवेभ्यः प्रजापदये प्रतिप्रोच्या स्वम् वेभ्यम् बध्नादे न देवनाभ्यावश्चे प्रदेयान्भवने देवश्च प्रथमैरिसनामादत्ते प्रथोके अश्विना बाहुभ्यामित्याह अश्विनो हि देवानामध्वर्यो आस्ताम् उष्णाहस्ताभ्यामित्याहयत्ते म्ब एतद्यज्ञस्य यतयजुष्केण क्रियते इमामशभ्रन्दशनामृदस्ते चधिविदति यजुष्कृत्यै यज्ञस्य समर्थ्यै तदाहुः कालशारेदनागक्तव्या त्रयोदशभावा यषूनाम् यत्संवत्सरः तस्य त्रयोदशो मासोऽविष्टमम् ऋषभेषयज्ञाना यः स्वमेधः यथा वा ऋभस्य विष्टवम् एवमेधस्य पिष्टवम् त्रयोदशमरत्ययोरसलायामुपादधाति यथा ऋणभस्य पिष्टपगम् सज्ञः करोति आयुगेव दे ओर्वायुषु विधिषेषु गोज्येयत्याः रतः सानम् सरमानभन्तेत्याह सत्यम् वा रदम् सत्येनैवेन भृतेनारभते अभिधासेत्याह अस्मानस्वमेधयादीनम् वाणि भूतान्यभिभवति भुवनमधेत्याः भोमानमेवोपैन्ताधेत्याह चन्तानमेवेनम् कलौति धर्ताधेत्याह धर्तारमेवेनम् करोति स्वज्ञम् वैष्मा नरमित्याह अज्ञावेवैनम् वैष्मा नरेजुहो सप्रसमित्याह प्रज एवम् पशुभिः प्रथयते स्वाहाकृतयुत्याह होमगैवाश्रैषः पृथिव्यामित्याह अस्यामेवैनम् प्रतिष्ठापयति यम्तारा्यन्तासि यमनो धत्तासि धर्मयुत्याहोमेव सेजन्म यमानम् व्याजते दृश्येत्त्वा क्षयमायत्वा रय्येत्पापोषायत्वेत्याह आशिषमेवैदामाशासे स्वगात्वा देवेभ्यगित्याः देवेभ्यगेवेन भी ग्यः स्वगाकरोति स्वाहात्वा भुजापतिगित्याः राजापत्यो वा स्वः यस्यागेव देवतागाः लभ्यते दे। सगैवेन कुशमर्थयते यः पितरृजागाः पुत्रः पुरस्तान्नयते यो मातुरनुजाया पुत्रः स पश्चान्नयते पुष्पञ्चमेवास्मात्पाप्मानम् विबृहतः नो हर्मम् दण्डिघागं सुमभ्यगे निवरुण निष्पानम् च तु रक्षम् प्रसौते परोमर्थः परश्वे लशुरस्य तु रक्षस्य प्रहन्ते श्वैपाप्माभ्रादुर्व्यः पाप्मानमेवास्य भ्रादुर्व्योहन्ति तैध्वगम् मुसलम् भवते कर्मकर्मैवास्मै साधयते वो गुष्टे लोहन्ते जन्य सुदेवाश्रु सुजोहन्ते आत्मा वा यदमेत्सदेत्याहुहश्वमेधेन गिरैदे अश्वस्याश्वप्राजापत्यः अग्रेणैव्यक्रामते दक्षिणापप्लावयति आत्मानमेवात्माक्षमणमपप्लावयति ऐषेकमुदोहो भवति आयुर्वा विधेगाः आयुरेवास्मिन् दशति अमृतम् वा विधेकाः अमृतमेवास्मिन्दे वेददशागोपसम्बद्धा भवते अप्सजो निर्वाश्वः अप्सजो वेदसः सा देवैनयो पुरस्तात् प्रत्यन्तमभ्यलोहरे पुरस्तादेवास्मिन् हृदेत् शमसन्दधादे अहम् यत्पञ्चमत्र हान्य ब्रह्मायमानसहस्तम् ग्रन्थादि ब्रह्मक्षत्रे एव सन्दधादे अभिक्रत्वेन्द्रभूतसद्मन्नित्यजमानम् वादेत्ये चत्वारिजः समुक्षन्ते आभ्यगेवभ्यो दृग्भ्योऽभितमे रजन्ते शतेन राजपुत्रैः सहाध्वर्यः पुरस्तारात्प्रत्यङ्गष्ठन् प्रक्षते अनेनाश्मे न मेऽध्ययनेष्ट अयगौराजावृत्रम् वध्यादिते राज्यम् वा ध्वर्यः क्षत्रगौराजपुत्रः राज्येनैवास्मिन् क्षत्रम् गृहाते शतेन राजभयवग्रैः सह अनेनश्वेण मेऽध्ययनेष्व अयगौराजा अलं मे ब्रह्मा परमराजोऽग्रह बलेनैवास्मिन् बलम् दृशाते शलेन सोदग्रामणिभिः सहोता पश्चात्प्रान्विष्ठन् प्रोक्षजे अनैनाश्वेण मेऽध्ययनेष्व अयगौराजास्यैविषः वः पश्वागेव प्रजाविकारे बहुव्रीदेवायै बहुमाशनिलायै बहु हिरण्याय बहुमस्तिकायै बहुदाशमोषाले नैमद्यै मुष्टिमत्यै बहुदायोषाले राजास्मिने भूमा वैहोदा भूमासूदग्रामन्यः भोम् नैवास्मिन्भौमानन्दधादे षडक्षत्रसङ्गहेतुभिः सहोद्गादा उत्तर्दो दक्षिणातिष्ठन्दोक्षरे हमेनाश्वेन वेद्ध्येनेष्वा अयगङ्गाजात आयुर्वा उद्गाता आयुः क्षत्रसङ्ग्रहेतारः आयुषेवास्मिन्नाय दृशादे शदकुण्ठम् भवन्ते शताय पूर्वश्रदेन्द्रियः आयुष्वेवेन्द्रिये प्रतिष्ठदेशदा भवन्तेषः प्रतिष्ठदे तथा वेहमिषो गृहीतस्य स्कन्दते एवम् वा येन स्वस्य स्कन्ददे यन्निक्तमनारमुजन्ते यत् स्वोक्या अन्वाः सर्वभुतमेवेन करोत्यस्कन्धाय अस्कन्दकमुदत् यद्धिदस्य स्कन्ददे सहस्रमन्वाः सहस्रदम्विदस्वर्गो लोकः स्वर्गस्य लोकस्याभिजित्यै यत्परिमितानुब्रूयात् परिमिरमवरुन्धे अपरिमितान्वाः अवरब्वर्गो लोकर्गस् लोकस्थ स्तोहदे याष ते अग्रैश्वा न्यामे प्रतिपये उज प्रजा स्तौया हमस्वेद्यस्थ जरा अग्न स्वाहे अग्ने एवेन जहोदे सोमाय स्वाहेत्याह सोमा एवेन जहोदे सवित्रे स्वाहेत्याह सवित्रगेवेन जहोदे सरस्वत्ये स्वाहेत्याह सरस्पत्या एवेन जहोदे कूष्णे स्वाहेत्याह उष्णगेवेन जहोदे बृहस्पतगे स्वाहेत्याह अवाम्मवदायस्पाहेत्याह अभ्य एवम् जुहोदे वायवे अस्पाहेत्याह आयवयैवेन जहोदे मित्रायष्पाहेत्याह मित्रायैवेनम् जुहोदे वरुणा यस्पाहेत्याह वरुणायैवेनम् जुहोति एताभ्यगेवेन देवताभ्यो जुहोदे दशदश संवादम् जुहोदे दशाक्षरा विराट् अन्नम् विराट् पिरा देवान्नाद्यमवन्धे प्रवाजेषाच्चपदे यत्पराजे राहुदय जहोदे पुनः पुनरभ्यावर्तन् जहोदे अस्मिन्नेव लोके प्रतिष्ठते एतागम्हवामसो अस्कमेश्छ स्कन्दाजा अस्कन्दकम् यद्गस्थिरस्य स्कन्दने प्रजापदयेद्वाजष्ठम् प्रोक्षामेति पुरस्तात् प्रत्यङ्गम् प्रोक्षते प्रजापदर्वै देवानामन्नादो वैर्यावान अन्नाद्यमेवास्मिन् वेर्यम् दधारे तस्पादस्वपशो नामनादो वैर्यावत्तमः इन्द्राज्ञभ्यान्द्वैजदक्षिनदः इन्द्राज्ञै देवानामोऽष्ठौ बलिष्ठौ ओज एवास्मिन् बलम् तस्पादस्वपशो नामोऽष्ठो बलिष्ठः आयवे त्वेति पश्चाद् आयुर्वै देवानामाशस्सारसारितमः जवमेवास्मिन् दधादे तस्पादस्वपशो नामाशस्सारसारितमः विश्वेभ्यस्तादेवेऽभ्यजत्युत्तरदः विश्वे वै देवादेवायशस्मितमाः येवास्मिन् दधादे तत्पादस्वपशोनाय यशस्मितमः देवेद्भ्यस्तेद्भ्यस्ताद् दे। देवामै देवानामुपजिततमाः अवजितिमेवास्मिन् दधादे तत्पादस्वपचो नामपजिततमः सर्वेऽद्भ्यस्ता देवेऽद्भिजित्युपनिष्टाद् दे। सर्वे मे देवास्विजमन्दोहरश्विनः स्विजमेवास्मिन् हरो दधादे तत्पादस्वपचो नाद्विषमानहरश्विनः रिक्षायत्वा पृथिव्ये त्वेत्याहेभ्य एवक्षते त्वाभ्यस्तौषधेभ्यस्ता विश्वेभ्यस्ता भूतेभ्यगत्याह तस्मादस्वमेधकाचिनकम् सर्वाणि भूतान्युपजीवन्ति ब्रह्मवादिनो वदन्ति यत्प्राजावत्योऽस्मादेन मन्याभ्यो देवदाभ्योऽभिप्रोक्षते अश्वे अपि सर्वादेवदा अन्वायत्ताः कय्यद्भिश्वेरेद्भ्यत्ता भूतेभ्यै प्रोक्षते एवदा एवास्मिन्नन्वायादयते तस्मादश्वे सर्वादेवदा अन्वायत्ताः स्कन्दये एवम् वा एतदश्वस्य स्कन्दये यत्प्रोक्षदमनानद्धमुत्प्रजन्ते जुहोरे सर्वभुतमेवेन करोत्यस्कन्दाय अस्कन्दकम् हि यद्धा यस्वाहेङ्कृता यस्वाहेत्याहस्वचरितानि चरितेरेवैकम् समर्थयते तदाहुः अनाहुयो वा चरितानि नैता होतव्या इति अत्र वावेवम् विद्वानस्त्वमेधकम् दग्नस्थापयते यदस्व चरितानि विभोज अस्माध्या नव्यायते बहिर्भावागेण मेतदागतलाद्रादे भ्यादुर्वमस्मे जनयदे यस्या नागतनेः नेत्राग्नेनाहुदेर्जुहोदे ने सावित्रयागष्ट्या पुरस्ताच्छकृतः आहवनीयजहोदे आगतन एवाद्याहुदेर्जुहोदेभ्यादुर्यम् जनयते तदाहुः यज्ञमुखे यज्ञमुखे होदव्याः यज्ञस्वत्यये स्वर्गस्य लोकस्यानुख्याज्ञाने असौ खल्वाहो यद्यज्ञमुखे यज्ञमुखे जुभुयान् पशुपर्यतमानव्य अपसुवर्गाल्लोकात्मद्येन पावीयान् श्यामि सगदेवहोदव्याः नयजमानम् पशुभिर्थयदे अयवर्गम् लोकञ्जयदे नरामीयान् भवने अष्टायत्वारिकंशदमश्वपाणि जहोदि अष्टायत्वारिविंशदक्षराजगजे जागलोश्वप्राजापत्यः समृद्ध्यै एकमजरिक्तम् जहोति तस्मादेकः प्रजास्पर्धुकः विभोर्मात्रा प्रभो पित्रेत्याः यम् तस्माच्छिष्टाः प्रजागन्ते अत्यवसेत्याह तत्पादश्वः सर्वान् पशोनत्वेजे तत्पादश्वः सर्वे नाम् पशो नागश्रेष्ठम् गच्छले प्रयश्रैष्ठे यगेवम् वेद सर्वा से सप्तरजिवाद्येत्याः से सेवन् महिमानम् व्याजष्टे एतद्वाश्वस्य प्रियम् नामधेयम् प्रिय नैवेन नामधेये नाभिव तस्मादप्य मित्रौ सङ्गत्या नाम् ना तेऽभ्युजेते मित्रमेव भवतः आदित्यानाम् बद्वान् भीत्याह आदित्या नैवेन गमयते भोरसि भवे यत्का भव्यायत्ता भविष्ये त्वे त्युक्षमत्वाय देवाला एतम् देवेभ्यो संवेधाय प्रोक्षरङ्गोपा यदेत्याः स्वरम् वेदप्या राजपुत्रादेवाशाबालाः तेभ्येव नेश्वरो वा स्वक्रोग् पराम् परापलम् स्वाहेहमिषदिष्पा हेहरम् दिस्वाहेहनमदिष्पाहेति बध्नादे तस्पार्श्वप्रभक्तोबन्धनमागच्छते तस्पार्श्वप्रभक्ताबन्धनम् न जहारे राष्ट्रम् वा स्वमेधः राष्ट्रे खलु वा हेदे व्यायच्छन्ते हेष्वम् मेध्यम् रक्षन्ते ते कार्यमुदरम् गच्छन्ते नार्प्रादेवते राष्ट्रम् गच्छन्ति अथगपुत्र गच्छन्ति नार्प्रादेवतेऽप्यवच्छिद्यन्ते पराभागेच्यते बलाश्वमेधेन यदमित्रास्त्वम् बिन्देरन् अन्येदास्तयज्ञः रक्ष्यन्ते यज्ञस्याघादाघात् गा, अधान्यमानीयप्राक्षेगः सैवतदप्रायश्चित्तेः प्रजापजलकामैलाश्वमेधेन गिरेगेति सदपोदप्यस्य देवानस्य सप्तात्मनो देवता पुलक्रामन् सा दीक्षाभवत् स केदान्यवैश्वदेवान्यपश्यते आन्यजुहो वैर्वैदीक्षामवारुन्ध यद्वैश्वदेवानि जुहोदिमानोपरुन्धे सप्तजुहोदि सप्तहिता देवतावलक्रामन् अन्वहम् जुहोति अन्वहमेव दीक्षानुवरुन्धे एन वैश्वदेवान् जुहोति चत्वारि यौ अग्रहणानि सप्तसम्पद्यन्ते सप्तवेदीर्षण्याः प्राणाः प्राणादीक्षा प्राणीरेव प्राणान् दीक्षा वरुन्धे एकविकुंशयम् वैश्वदेवान् जुहोति एकविकंश सर्वैरेव लोकाः बालसमासाह्वः प्रेहिमे लोकाः असावादित्यकेकविगुंसः एषसवर्गो लोकः तद्दैव्यम् क्षत्राम् सा श्रीः तद्ब्रध्वस्तविष्टवम् तत्साराज्यमुच्यरे रघुंशदपोग्रहणानि विहोनि रघुंशदक्षरा विराट अन्नम् विराट विराजैवान्नाद्यमवर्धे प्रेधा विभज्य देवतान्यहोदे त्रियामृवमे देवाः त्रयामृतय मे लोकाः येषाम् लोकानामाप्त्यै केषाम् लोकानाम् लत्यै अपारे तस्मात् प्राणाक्रामन्ते यो देक्षामतिरेचयते दे, सप्ताहम् प्रजलन्ति सप्तमीधीर्षम्याः प्राणाः प्राणादीक्षा प्राणीरेव प्राणान् दीक्षानुवृन्धे पूर्णाहुदिमुत्तवान् जहोदे सर्वम् वेगोर्णाहुदिः सर्वमेवाप्नोदे अथोरियम् वेभोर्णाहुदिः अस्यामेव प्रतिगच्छदे प्रजापजलक्ष्मेषधमसजरा त किम् षष्ठन्द किञ्चनोदयच्छत् तम् वैश्वदेवान्येवोदयच्छन् यद्वैश्वदेवान् जहोदे यज्ञस्यो यद्य स्वाहाधिमाधीताकस्पाः स्वाहाधीनम् मनजे स्वाहा स्वाहा मनःप्रजापतजये स्वाहा का ग स्वाहा कस्मै स्वाहागलवस्मै स्वाहेति प्राजावत्ये मुख्ये भवदः प्रजापतिमुखाभिरेवैनम् देवताभिरगच्छते अरित्ये द्वाहानित्ये भक्ते स्वाहा नित्ये सुमनेकाये स्वाहेऽप्याः इयम् वादिनिः अस्या एवम् प्रतिष्ठायोगच्छते वनस्पद्ये स्वाः वनस्पत्ये बृहत्ये स्वाह वरस्पत्ये पावका हे स्वाहेत्याह मारस्पदे मादेवैनमुद्यच्छते भोष्टे स्वाह भोष्टे प्रपथ्या यस्पाः भोष्ठे रन्धिरा यस्वाहेत्याह भूषा पशुभिदेवैनमुद्यच्छते कष्टे स्वाह कष्टे सुरीवा यस्पाः कष्टे पुरलोपा यस्माहेत्याह ेव अथो लोपे देवेनमुद्यक्षते विष्णवे यस्वाह विष्णवेन दुर्यपायस्वाहा विष्णवेन भूयपा यस्वाहेत्याह यज्ञो वे विष्णवः सिज्ञा एवेनमुद्गच्छते ओर्णा बुदिमुत्तमाञ्जुहोति प्रत्युत्तैषयत्वाया ष्टागपालम् राजर्निर्वपदे अष्टाक्षरा गायत्री गायत्रम् राजस्वनम् राजस्वना देवैनम् गायत्र्याश्चन्दसोऽस्वनमेव तेनाहाप्नोति गायत्री छन्दः समित्रे प्रसमित्र एकादशगपालम् मध्यन्दिने एकादशाक्षरा तृष्पे म् माभ्यन्दिनकुंसवनम् माभ्यन्दिना देवैनकुंसवना दृष्टुभश्चन्दसोऽषि निर्मिमे अतो माभ्यन्दिनमेव सवनम् तेनाप्नोति द्रष्टुभम् छन्दः सवित्रः सवित्रे द्वादशकपालमवराह्मे द्वादशाक्षरा जगती जागतम् तदीयसवनम् तदीयसवना असौदरीणेनाप्नोदि जगजे छन्दः ईश्वरोप्रमुक्तः पराम् परावतम् गन्दोति स्वाहेहविषति स्वाहेहरन्त्य स्वाहेहरमु स्वाहेलस्रहुदेर्जहोदिशः दी, दिग्भेव गृह्णादि आश्वत्सौ व्रजाभवदे प्रजापचर्जेवेभ्यो निदायत अश्वरूपम् कृत्वा स्वश्वयदम् वत्सरपतिष्ठते तदश्वत्थस्याश्वत्थत्वम् यदा व्रजा भवते स्वगेवेन यो नौ प्रतिष्ठापयते आब्रह्मन् ब्राह्मणा ब्रह्मवत्त्याह ब्राह्मण एव ब्रह्मवत्य सन्दधाति तस्मात् पुरा ब्राह्मणा ब्रह्मवत्यस्य जायता स्मिन् राष्ट्रे राजन्यशव्यश्रोरामहारसो जायतामित्याह राजन्यजेवशौर्यम् महिमानन्दधादे अस्मात् पुरा राजन्यै शव्यश्रोरामहारसोऽजायत्रेधेऽनुरित्याहेन्वामेवमयोजधाये तस्मात् पुरादोऽग्रेधेऽनुरजायत गोढानड्वानित्याह अनुडस्यैव वीर्यम् दधाति तस्मात् पुरा वोढानड्वानजायत आशुःसप्तिरित्याह अश्व एव जन् दधाति तस्मात् पुराशुरश्वजायत पुरन्धिर्योषेत्याह योषित्येव रूपम् दधाति तस्मा श्रीमतिप्रिया भावुका यत्र एतेन यज्ञेनैरन्ते सभे योजिवेत्याह यो वेवोरोयसे स सभे योजिवाः तस्माद्यपापुमान् भावुकः आस्य यजमानस्य वीरो जायतामित्याह आहवे तत्र यजमानस्य वीरो जायते निकामेन निकामे पद्यम्यावर्षत्वित्याह निकामे निकामे हवेदत्र पर्जन्योपरिषदि यत्रैतेन यज्ञेनैन्ते फलिन्यो नवोढधयः पच्यन्तामित्याह फलिन्यो हवेदत्र ऊटधयः पच्यन्ते यत्रैतेन यज्ञेन यजन्ते योगक्षेमो न कल्पतामित्याह कल्पते हवेदत्र प्रजाभ्यो योगक्षेमः यत्रैतेन यज्ञेन यजन्ते प्रजापतद्धेभ्यो यज्ञादिशत् स आत्मन्न स्वमेधमधत्ताब्रुवन् एषवावयज्ञः इरस्वमेधः अव्यवनोऽत्रास्विजे तेभ्य एतान्न होमान् प्रायच्छत् तानजुहोत् अयैर्वैतदेवानप्रीणाद् जिरन्न होमान् जुहोदि दे, देवानेपतेगमानप्रीणादि दे, आद्येन जुहोज अग्नेर्वा एतद्रूपम् यदाज्यम् यदाद्युहोजे अग्निमेव तत्प्रीणादे मधुना विहोजे महत्क्यैवा एतद्देवतायैरूपम् यन्मधु यन्मधुना विभोजे महती मे वद्देवतानाम् प्रीणादे तण्डुले जुहोजे मधूनाम् वा एतद्रूपम् यत् यत्तण्डुलैर्जुहोदे पशूनेवदत्रेणादे पृथुकैर्जुहोदे रुद्राणाम्ब एतद्रूपम् यत्पृथुकाः यत्पृथुकैर्जुहोदे रुद्रानेवदत्रेणादे राजैर्जुहोदे आदित्यानाम् वा एतद्रूपम् यल्लाजाः यल्लाजैर्जुहोदे आदित्यानेवदप्रेणादे कलम्भैर्जुहोदे विश्वेधाम्बः एतद्देवानागम् रूपम् यत्कलम्बाः यत्कलम्बोगे विश्वानेवदेवन् प्रेणादे धानाभिर्जुहोदे नक्षत्राणाम्ब एतद्रूपम् यद्धानाः यद्धानाभिर्जुहोगे नक्षत्राण्येवद्रीणादे सक्तभिर्जुहोगे प्रजापतेूपम् यत्सक्तवः क्तिभिर्जुहोदे प्रजापति वैवनप्रेणाते मसोऽस्य ये जहोते सर्वासाम्ब एतद्देवतानागम् रूपम् यन्मसोऽस्यामि यन्मसोऽस्यै येज्जिहोदे सर्वा एवतन्वनैर्जुहोदे प्रियाङ्गाः वैनामैज एतैर्वै देवः अस्मस्याङ्गानि समदधः यत्र अङ्गलैर्जहोदे अश्वस्यैवाङ्गानुसन्दते दशान्नानुजहोदे दशाक्षाविराट यदा कृष्णस्यान्नाद्यस्यावरुध्यै प्रजापतिरश्वमे समजत तगम् द्रष्टकम् रक्षाकस्य निखागुम् स्वकेतान् प्रजापति नक्तकम् भगवान् अपश्यत् तान् जहोन् तैर्वेदयज्ञान् रक्षाकस्य कन्नक्षकम् होमाञ्जहोदेक्षागस्य वहन्ते आर्येरजहोजे वज्रो वा आज्यम् वज्रेणैव यज्ञान् रक्षागस्य वहन्ते आर्यस्य प्रतिपदम् करोदे प्राणो वा आज्यम् मुकलदेवास्य प्राणन्दधादे अन्नहोमाञ्जहोरे शरीरवदेवा वरुन्धे गाजोते उभये रक्ष जो अक्षताव आज्य प्राणादे पुस्तापाचे अस्ोक प्रतिष्ठते स्वाहे अमुष्मिन्नेव लोके प्रतिष्ठते वयोरेव लोकयो प्रतिष्ठते अस्मग्मुष्मग् श्रावयस्वाहेत्याः श्रावयुर्वे गुरुणः सदवेर्यवरुन्धे सहस्राय स्वाहेत्याः आयुर्वे सहस्रम् आयुरेव वरुन्धे सर्वस्मै स्वाहेत्याः अपरिमितमेवावरुन्धे प्रजापतिम्बालेकजेक्षतेत्याहमेधेनैत इति सर्वाणि भोजानीति एकस्मै स्वाहेत्याः प्रजापतिम्बा एकः तमेवाप्नोजे एकस्मै स्वाहाद्वाद्वास्वाहेत्यविपूर्णमापुजयम् जुहोजे अविपूर्णमेव सुपर्गम् लोकमेते एकोत्तरञ्जहोजे एक लोक मेरे सन्तंजुह सुवर्ग से लोकसास्वाहे शायद पूर्ण शन आयुदेव सहस्रास्वाहे आयुर्मे सहस्रम आयुदेव वैलाये लोका इन लोकान वृंधे अर्बुदास्वाहेबुद्वाचमे वृंध निबुदास्वाहे योगे वाच भौम कन्याबुद्वाचदृंध समुद्रास्वाहे समुद्रम आनोदे मध्याय स्वाहे मध्यमेवाप्नोदे पन्थाय स्वाहेत्याः पन्थमेवाप्नोदे परार्धाय स्वाहेत्याः परार्थमेवाप्नोदेशे स्वाहा व्युष्टे स्वाहेत्याः रात्रिर्वा उषाः व्युष्टे अहोरात्रे अहोरात्रे मोहयेत् स्वाहा स्वाहोदेष्टदे स्वाहो गदे स्वाहेत्यनुजितेजहोदे पुराय स्वाहार्गाय स्वाहा लोकाय स्वाहेत्युजिते जहोदे अहोरात्रयोगव्यजमोहाय विभो मात्रा अभवत् पित्रेत्यस्वनामानुजहोदे उभयो रवयन् लोकयोर्नामधेयम् आयनाय स्वाहा प्रायणाय स्वाहेत्य ग्रामान् जमेवे नमस्कन्दुवर्गन्ध अगङ्गमयदे अग्नये स्वाहाय स्वाहेति पूर्व होमान् हो जोदे पूर्वरेवरन्दम् भ्रातव्यमतिक्रामदे स्वाहारिक्षाय स्वाहेत्याह यथा अग्नये स्वाहा लोमाय स्वाहेति पूर्व दीक्षा विहोते पूर्वदेवम् प्रातर्भवति क्रामदे स्वाहान्तरिक्षाय स्वाहेत्येकविः द्वादशवासाः पञ्चत्तमः त्रयजमे लोकाः असमादित्यदेव विपुंसः एष सुवर्गो लोकः सुवर्गस्य लोकस्य समक्षे भगो देवानाम् कर्मणे चतुदेक्षादिभवते स्वाहा स्वाहेजुत्यनन्दरित्ये पर्वा यज्ञः सङ्ग्रामकृत्यार्गस्य लोकस्यात्ये भोदम् भव्यम् भविष्य देवर्यादेहोने स्वर्गस्य लोकस्य मर्यादे कामे ग्राहो मन्दिरत्याभो जने स्वर्गस्य लोकस्या भो ते अग्निनातवोत्यनुभवज्जहोजे स्वर्गस्य लोकस्यानुभोद्येताय स्वाहे नमस्ता समस्तमेवम्भ्यस्वाहाभ्यागस्वाहेत्यङ्गहोमाञ्जहोदे अङ्गे अङ्गे मे पूर्णस्य महात्मावसृष्टः अङ्गालङ्गादेवेयम् पात्मात्रेण मुञ्चदे अंजेता यहाँ जो ओर भ्रज्स्वाहेक् तय्यो ओ पुष्पे फल गृह मूल्या वनस्पतिभ्यस्वांजुजे आनाध्ये मेघस्थेवावृंधे कोप्या न जायते तदवरुन्धे अम्भागुम् जहोदे अयम् वै लोकम्पदयः अग्रज्योतिः यदाभागम् इममेव लोकमुन्धे वसो लाकुम् इभ्यम् गच्छते अग्रम् ज्योतिरवरुन्धे न भागम् सजहोजे अन्तरिक्षं वै न भागुम् ्योतिः यन्नभागंसि भवते अन्तरिक्षमेवावरुन्धे रुद्राणागुञ्जायुज्यम् गच्छते महापुंसि भवते असौरे लोको महागुंधे तस्यादित्याः सो याव्योतिः यन्महांसिजभवते अवमेव लोकमवरुन्धे आदित्यानागुम्भायुज्यम् गच्छते सौर्यं जनवृन्ध्ये जे तमो नव्यानि जहोज अन्नार्यस्यावरुध्ये मयोवादोत्वा इति गव्यानि जहोदेशो नामवरुध्ये प्रानाय स्वाहाय स्वाहेति सन्तति होमाञ्जहोदे स्वर्गस्य लोकस्य सन्तत्ये सिता यस्वाहाय स्वाहेति प्रमुक्ते जहोदे लोकस्थि स्वाहाय स्वाहेजदे दवाह स्वाहेर होतेम्क् जम्क्तर्गस् लोकस्थे यः प्राणगो याः पदानो जुहोदे स्वर्गो वै लोको महः स्वर्गमेवनो वृन्धे आ ब्रह्मस्तानि ब्रह्मवत्कसानिहोदे ब्रह्मवत्कसमे वृन्धे यज्ञे अग्रे समनवत्पृथिव्यै समनमति सन्नति होमान् जहोदे स्वर्गस्य लोकस्य सन्नत्ये भूता विस्वाहाविष्यते स्वाहेति भूताहोजे अयम् वे लोको भूतम् असौ भविष्यति अनयोरेव लोकयो प्रतिष्ठते सर्वस्यात्ये सर्वस्यावृद्धे निरक्रन्दः प्रथमञ्जायमाणैक्रवस्त्वमीयम् जहोजे सर्वस्यात्ये सर्वस्य सर्वमेवतेनात्मोदे सर्वम् जयदेमेधेन यजते यगुदेन एवम् वेद यज्ञकम् रक्षाकस्य दिघागम् धन्न स्वदेतान् पदापदन्नक्तगम् भोमानपश्यत् तान् दृहोदेव यज्ञान् रक्षाकस्य पाहन् यन्नक्तगम् भोमान् ज्वदे यज्ञादेवदेक्षाकस्य वहन्ते उषते स्वाहाे स्माहे अत्यन्ततो <्पुँषदेस्पाहार्द्योष्टेस्पाहेत्> जुहोदे स्ववर्गस्य लोकस्य नमष्ट्ये एकजोपो वैकादशिनैव अन्येषाम् विज्ञानाव्योपा भवन्ति एकविकुंशन्यस्वमेधस्य स्ववर्गस्य लोकस्याभिजत्यै वैलवो वा खादिलोपालाशो वा अन्येषाम् यज्ञक्रलोनाय्योपा भवन्ति राज्युशालेकविगुंसत्यरत्न्यस्वमेतस्य स्वर्गस्य लोकस्य समक्षे नान्येजाम्बशोनान्ते जन्या अपद्यन्ते अपद्यन्त्यश्वस्य पात्मा वेदे जने पात्मनापहत्ते द्रक्षशाखायामन्येणाम्बशोनापहत्यन्ते वेदलशाखायामश्वस्य अप्सजोजन्वाश्वः स्वदेवाश्रयो नापद्यते योपेष् ग्राम्यान् पशोनि आरोग्येण स्वारण्यान् धारयन्ते पशूनाम् व्यापत्ये आग्राम्यान् पशून् लभन्ते प्रारण्यान् सृजन्ते आत्मनापहत्ये राज्युदानमज्ञेष्ठम् विनोते श्रोणहत्यापहत्ये पौद्रवा भवितो भवतः पुण्यस्य गन्धस्यावरुद्ध्ये भ्रोणहत्यामेव पुण्येन गन्धेन वैदः परिग्रन्थादे षड्वेरवा भवन्ते ब्रह्मवक्षरस्यावरुध्ये षट्पादिराः तेनवरुद्धे षट्प्राकाशाः स्वमवेदस्यावरुद्ध्ये एकविंशतिः सम्पद्यन्ते एकविंशतिर्वेदेव लोकाः द्वादशमाचः पञ्चक्तवः त्यनेकविपुंसः एष सुभर्गो लोकः स्वभर्गस्य लोकस्य नवष्णे शतम् वधवो भवन्ति शदाय पूर्णश्वरेन्द्रियः आयश्वेमेन्द्रिये प्रतिष्ठते सर्वम् वा स्वमेऽध्याप्नोति अपरिमिला भवन्ते अपरिमिलस्यावलुब्ध्ये ब्रह्मवायुना वदन्ते कस्मात् सत्या दक्षिणतोपशो नाम पद्यन्ते उत्तरतोस्येते वारुणो वा श्वः एषा स्वायामेवास्य निश्चपद्यते नाम शतदेवत्यन्तेनावरुन्धे चितेष्कृतेष्वञ्जिनोदे अर्थयोः कप्सजो तयैव यो न प्रतिष्ठापयते पुरस्तात् प्रत्यञ्चन्तोपरम् च नोदे पश्चात् प्राचीनम् तानापाना कानापानामेवास्मिन् च उदधारते न स्वन्तोपरम् गोमृतमितद्बहुधाने लवकानामभिजित्य आत्मन अभिजहो सा आत्मानेवेन कुशतनम् करोति सा आत्मा पुष्पम् लवके भवते एवम् वेद अथो वसो रेवनावरुन्धे इरुवर्दा युष्वाहायस्वाहेत्याह संवत्सरो वा इरुवर्दः परिवत्सरो वर्दः वरिवत्सरावरुन्धे आयुरेवास्मिन् तस्मादश्वमेकजाविश्व एकविंशो वाग्निर्भवने एकविकंशस्तोमः एकविंशतिरियोगानाः यथा वाणः सर्गस्फुरेणन् एवमेतत्सोमाः सर्गस्फुरन्ते यदेकविंशाः क्रेयत्सवक्षेरन् अन्येताज्ञः द्वादश एव आज्ञस्य आदित्याभो द्वादशस्तोमः एकादशयोगानाः यद्वादशो आज्ञ संवत्सरेणैवन्धे यद्दशयोगापबन्दे दशाः विराट् अन्नम् विराट विवान्नाद्यमवरुन्धे यदेकादशः सर एवास्यैषः गृहलेवैनान्तेन ना। प्रदाहो यद्वादशोऽव्यस्याः द्वादशस्तो एकादशयोगाः तथा स्थोरिणायात् तादृग् तत् एकविंशदेवाक्यस्या नित्याहुः एकविवंशस्तोमः एकविंशतिर्योगाः कृष्णेव अश्वमेधे निष्लक्रगुभवेदुधराज्ञाम् भवति एकविपुंशवाक्य भवते एकविपुंशस्तोमः एकविंशतिरियोगाः एताव अश्वमेधे त्वडेवम् वेद मकुद्धराज्ञानम् भवति यो वा अस्तु मेधे त्रीणि शीर्षाणि वेद शिरहराज्ञानम् भवति एकविपुंसार्भवति एकविपुंसस्तोमः एकविपुंसृोपाः वेदानि वा अस्तु मेधे त्रीणि शीर्षाणि षडेवम् वेद शिरोहराज्ञानम् भवति स्वर्गम् लागन्न प्राजानन्न वैष्णम्पन्ते स्वर्गस्य लाकस्य प्रज्ञाद्य सा वेद अस्माभिर्गम् लाघमञ्च सा वेदयेत् यथाक्षयेदयत् उद्घातारमवरुध्य अश्वमद्येधाय वृणय्याम् च जानयते एवमेवश्वस्वर्गम् लोकमम् च जानयते पुक्षमन्वारभन्ते स्ववर्गस्य लोकस्वण्ये हिङ्गरमते स्वामेवागः हिङ्गरमते मद्गेशदेवासदः वटः उपलन्धन्ते विशरत्पायप्रजाः असौविधोपघातारमुपगायन्ते रात्रिकेव तदे उदगादयस्वामेत्याः प्राजापत्योपाश्वः प्रजापतिरद्गेशः उद्गेतमेवावन्धे अक्षोरक्सामयोरेव प्रतिष्ठते हिरण्येनोपागरोदे ज्योतिर्वे हिरण्यम् ज्योतिरेव मुखतोधादे इडमानेन प्रजा असो हिरण्यज्योतिरेव इडमानस्य लग्नम् लोकमेदे जापतेः पशोन्ते यज्ञानेव तत् यज्ञम् भजन्ते अश्वन्तोपरङ्गो मृगम् सेनामुखमेव तत् शक्यते तस्माद्राजमुखम् भेष्मम् भावुकम् आज्ञेयम् कृष्णग्रीमम् पुरस्ताद्वाज्ञम् कुरुते तस्मात्तोर्वाक्यम् पुरस्ता स्थापयन्ते ओष्ठमन्वञ्जम् अन्नम् वे दोषा तस्मात्तोर्वाग्यावहापरिस्ताद्रो वेदाजन्योन्नम् भोषा अन्नाद्य नैवेदभयतः परिगृह्णाते तस्माद्राजन्योन्नादो भावुकः आग् कृष्णेवो बाहुवोः बाहुवो रेव वेजम् धत्ते तस्माजन्यो बाहुबले भावुकः भाव साष्टौ नो लक्षे धे तस्मान् भले भावुकः प्रोस्पत्यो पृष्ठे ब्रह्मवस्तदेवोत्रे अथो नवजे रसा सन्नद्धो धीर्यम् करोति धात्रे पुशोदमधस्ता पृष्ठामेवैताम् कुरुते अथोयम् वैधातः रस्यामेव त्वम् वनक्षम् पुक्षे उत्सेधमेव तम् कुरुते तस्मानुच्छेधम् भजे प्रजा अभिनयन्ति